Oh देवा, ैश्वगच्छत् पुरोधा एवं यद्वांसत्यंशतिरात्रमातरेभ्य पुरुष्या गच्छन्ति पुरोधागौरायः भवन्ति भवत्येव भवन्ति ते सत्रं देवदादेव पृष्ठैरवन्धदेवन्दैरवैवीर्यं वृष्टाय भजवच्छन्दो वा भोजस्येव वीर्ये पुरुप्रजतिष्ठन्ते बृहत्र सुन्दराभ्या हैयन्तीजम् वारपसो बृहदाभ्यामेव यन्त सो अनजोरेव प्रयतिष्ठन्ते देवैर्यस्या गदा ेवर्गन् लोकयन् चतुर्विगंशतिरात्रभवज चतुर्विगंशति रग्धमादाः संवत्सरः संवत्सरस्वर्गो लोकः संवत्सर एव वर्गे लोके प्रचक्षन्तर्विगंशत्यक्षरा गायत्री गायत्रे ब्रह्मवक्षदङ्गायत्रेण ब्रह्मवक्षदमवन्धे गा भवतो ब्रह्मवक्षदस्य परिग्रहेत्ये यथा वे मनुष्यादेवं देवाग्रासन्ते कावयन्तावत्यं पाप्पानं चर्मिगं दिनरात्रमपश्यन्तीकं संसरमगच्छति एवं युत्राकं सत्यदुर्मिगं सरात्रमासदेवक्तिमेव पाप्पानव महत्यस्य गङ्गन्ति मनुष्यस्य दैवीकं सज्ज्योतिरभवजो यस्त्रिंसा परस्तात्रयस्त्रिंशदेवो भगतो गच्छन्ति ज्योति वा एत्कुर्वन्ति यत्र यत्र भवन्ति पृष्ठानि भवन्त्योद्भाश्चन्दो वा उभाभ्यागुं रूपाभ्यागु लोके यन्त्य सत्रं वारेतन्दो यच्छन्दो वा भवन्ति तेन सत्यं देवता एव पृष्ठेन्द्रन्दो वैरो वैवेग्यं पृष्ठानि वनवश्चन्दो वाजग त्रयस्त्रयत्रिनिंशा अवस्था भवन्ति त्रयस्त्रयत्रिनिंशाः परस्तान् मध्ये पृष्ठान्यो वैत्रयत्रिपुंशा आत्मा पृष्ठान्यात्मनेवन्ते शत्रे विगलाभ्यामेव यन्त्यसो अनजोरेव प्रतिष्ठन्ते ते वैरित्यस्याजने त्वदेताभ्यामेव सुवर्गम् लोकयन्ति वराः लोकमभ्यारोहन्त्येव राजेनानि वृष्टाङ्गमयन्ति प्रत्याक्षातिष्ठन्त्यै प्रभवारिज्योदक्षो वा भवत्यक्षयात्मादेवदय रक्षया नयन्त्रं प्रतिष्ठन्त्यथत्री गायत्री ब्रह्मवर्तदमवृन्द्रह्मवर्तस्य परिगृहेत्य ृक्षा वाकाशे भर वेता प्रजाकामाः पशुकामास्तु जायन्ते प्रजया पशुभिरियं वा अक्षयिता विराजमपश्यत्ता वास्पते लोकस्यानुष्ठदवश पृष्ठायष्टेदं वत्सर एव प्रयस्त्रिकं त्रयस्त्रिकं चोपयन्ति यज्ञश्चरं च प्रजापतिर्वेत्रेस्त्रिवंशः प्रजापतिमेवानभन्त एकविगुंस भवति प्रतिष्ठे च अथोर्जमेवात्मन्दसरे निर्दान्ते सौते गो वैत्रवत्तेवात्मन्दसेवन्द्रियमेवावन्दतेन जायन्त एकविगुंस भवति प्रतिष्ठे च अथोर्जमे भवन्ति एवं विद्वांशर्विगुंशात्कृष्टान्युपयन्तिवत्सर एव प्रतिष्ठानि देवताभ्यालहन्ति त्रयस्त्रिगुंशायस्त्रिंशभयन्ति त्रयस्त्रिगुं च त्रय देवता देवता ष्टोषाणो यदेते भवन्तिरस्माणस्पतिरक्तां विद्वानेते लोकयन् यन्ति गजेतमोर्ध्वा वृत्तास्ता वा भवन्ति युक्तादेव सुमर्जन् लोकयन् लोकयो कल्पने स्वर्गन् लोकमेत्तन् देवा येन चन्द्राप्तवन्त प्रजापतिष्वेनैव चन्दना प्रजापति माप्त्वार्गन् लोकवान् विद्वागुण्डेता भातृगं देता भातृकं दशराष्टभक् प्रजापतिष्पेणैव चन्दना प्रजापति माप्त्वा श्रियम् गच्छन्ति श्री ष्ट भवन्ति सर्वे श्रियम् गच्छन्ति ज्योजर्गौराः भवन्ति गौरसा वाहन्तः भवन्त ेवन्ते सुगे सुवर्गन्दागयन्ति पराञ्चले गाक्रमभ्यारोहन्ति रे पराजस्रानुपयन्ति प्रत्यङ्ग्रापदि प्रत्यवरोभ्यासात्पदे उभयो लोकयो तिष्ठन्ति द्वात्रिकुं सदेतास्तासायास्त्रिकुं शस्त्रिकं सदकथा विराजन्द्रं विरा देवान् अहोरात्रे एवम् ते रात्रा पविता भवतः परिगृहीत्यै देवावदेवशत्रेत्मादसाहश्रयवत्रयस्त्रिगुंसरहस्त्रिदेवं विद्वायुणरहमासरे साक्षादेव देवताभ्यारोहम् दिनशाकल श्रेयानभ्यारूढ कामय देवनेवं विविद्वाणस्त्रियुंसदहमासने दिपात्मनाभ्यावर्तन्ते हद्भाजो वा रेता देवा अग्राहरणहरे कोहता सर्वहन्ति सर्वे ग्रामणीयम् प्राप्नुवन्ति पञ्चाः भवन्ति पञ्चवादम् अत्रे प्रचतिष्ठन्तसौ पञ्चाः प्रावन्तो यज्ञो यज्ञमेवावरुन्धते प्रेन्द्याः श्विनानि भवन्ति प्रेजमे लोकायेष्वेव लोके च प्रचतिष्ठन्दसौ जानितान् देवावलन्धदे वादङ्गर्वागिनस्तत्रस्य विलोपक्रियरेतस्तेवे शान्त्यश्वयत्सहादिरात्रेण पोर्भाषोडशसहाजरात्रेणोत्तरा षोडशगजेवं यद्वागुं तस्तयत्रयं ैशान्तरैका प्रजा जायते भवतः परिगृहीत्य आदित्याकामयन्त सुवर्गं लोकमिजावेदिते सुवर्गं लोकन्न प्राजान सुवर्गं लोकमायन्तं शत्रात्र पश्यन्तवाहन तेनायन्तर्गं लोकं प्राचानयन्त सुवर्गं लोकपादेवं यद्वाकं षशत्रिकं शत्रात्र वासरे सुवर्गमेव लोकं प्रजानन्त्य सुवर्गं लोकयन्ते ज्योतरात्रो भवति ज्योतरेव पुरस्ता सुवर्गस्य लोकस्य नुख्यात्प्रेषणा भवन्ति वरदस्वेव प्रतिष्ठन्ति यत्तारा भवन्ति पुनश्चन्दा वा भवन्ति तेन शत्रन्देवतान्धरे जेवेयं वृक्षानि भजवश्चन्दा वािगुं क्षत्राभवति क्षत्रिगुंसदक्षरा बृहदे वा न्दर स्वाराहाजमाच्युताश्चपदे स्वाराजेवम् विद्वागुम् सत्र समासरे सुवर्गेव लोकयन्तेभवदस्वर्गस्य लोकस्य परिगृहेत्यै हतपुत्र कामयन विन्देरः प्रजामभिणो दासान् भवेगमितसगेतमेकस्मान्न पञ्चविन्दद प्रजामभिलो दासानुभवत्रेवं विद्वांसके कस्मान्न पञ्चासवासदे विन्दन्ते प्रजामभिभ्रात्यान्भवन् सगृश्यन्ते पञ्चलशा भवन्ति पञ्चलसो वज्र वज्रलेव भ्रातर्णेभ्यः प्रहरन्ति लोडशमद्दशमहत् भवति वज्रजेव्यन्त प्रजदत्तं दोनादरिक्तावा नेता भुवनास्तद्यदेकस्तेन पञ्चाशदरिक्तास्तद्य खलु वाचुकावाश्चस्तदेता राजोपाकस्वान्न पञ्चाशोदेवं विद्वागंसरेकस्वान्न पञ्चाशपादरे गच्छन्त भवन्त च रात्रातो भवतो्राज्यस्य परिगृहेत्यै संवत्सरा ये कृष्य वा गा वे काष्ठगायान् दे क्षेरन्वेता वे संवत्सरस्य पत्नीयते काष्ठगेतस्याम् बाले तेतात्रिम् वदविधा क्षारेव संवत्सर बाले ते संवत्सरस्याभिदेहः क्षन्ते काष्टगायान्ते क्षन्तेऽन्तनाबानावृतो भवतो व्यस्तम् बालेते संवत्सरस्याभिदेः क्षन्ते रे न्देन्दनामानामृतो फल्गुणयोर्णवासे क्षेरण्मुखं वार्णवासो मुखदेवलं वत्सरमारभ्यरे कन्देदस्त्री देव निर्यायच्छाम्बे सम्पद्य चित्रापोर्णवासे क्षेरण्मुखम् वा नेतत्सं वत्सर श्रीर्चित्रापोर्णवासो मुखदेवलं वत्सरमारभ्यरे कन्देदश्चनका जन निर्गाभुव चतुर्हेफल पौर्णमास्तीमेकाष्टकायाम् ते सम्पद्यते तेनैकाष्ठकान् कुर्वन्ति ते पूर्णभक्षे शक्त्या सम्पद्यते पूर्णभक्षम् माता अभिजम् पश्यन्ते पूर्णभक्षमुत्तिष्ठन्ति तानुत्तिष्ठदोषयो वनस्पदयोरोत्तिष्ठन्ति तान् कल्याणी कीर्तिरणोत्तिष्ठाभवन्ति स्वर्गम् वा एते लोकयन्ति ने सत्र वयम् च भीन्धर एव दीक्षात्मानज्ञस्वयन्तः मज्जानमादक्षिणम् वैत्रमात्मानमेव लक्षिणान्येता सुवर्गम् लोकयन्ते शिखापुलम् प्रभवन्ती रागुंदस्वर्गम् लोकमया वेति de <tose> ब्रह्मवादिनो वदन्द्रात्र परमो यज्ञक्रतोत्रम् प्रथमोक्तमसादयात्रतोमेवैत्योति ज्योतिष्टोमो वै स्तोमानाम् मुखम् मुखत एव स्तोमान् प्रयुञ्जते वेदग्रस्तदा विराजमभि सम्पद्यन्ते लोकोज्योर्मिलाट् सुवर्ग्रेन ब्रह्मरामम् भगन्तम् बध्यतोमि ज्योतिष्ठोमं प्रथममुजगं तस्मिन्नेवतेन लोके प्रयतिष्ठन् नियोष्टो मन्त्रिजी यमुवयन्तरिक्षगेवलेन प्रियतिष्ठन्त्रायष्टो मन्त्रजी यमुवयन्तमस्मिन्नेवतेन लोके प्रियतिष्ठन्तिरन्तरिक्षं गौरसा वायुर्येतां सोमानुभयं चेष्वेवलं लोकेन तत्र प्रतिष्ठन्तोयन्स्तुता विलां वर्जन्ते वदच चदगगगग आगोरदिक्तेय क्रियाविरोणस्तमल्ग्गवे लोताज्जो जनर्बिलाजोत्जमे बावरुंधते तेन कृधार्थि महाअर्थं दक्षोघटा भवन् दीक्षितसं बाधाये बहिहत्तनाग्निष्ठो मावहितप्रतीता उप्यामाध्येनार्दं तत्तदेदत्पर्यद्यवजक्वैयते तेन लहवेनन्तदेवश्यकमेव समालोहन्तेष्ठे स्वस्तिनमस्तु वदेगगगग यन्दजद्मारद प्रतिष्ठन्ते भैरवज्योतिगायन्ते भैरेव प्रतिष्ठन्तोऽयन्ते द्वौषणो भवदस्ता हि द्वादशाकं पद्यन्ते द्वादशो पुरुषोद्वेदश रक्षङ्गा हिस्तनौ द्वादशो तत्पुरुषः पर्यावर्तन्ते प्रयक्षणः भवन्ति षट्वादशाहारिकं पद्यन्ते न भाण्याय प्राणास्तप्राणानुपर्यावर्तन्ते चत्वारश्रणः भवन्ति चतुर्विंशतिरः सम्पद्यन्ते चतुर्विंशति प्रतिष्ठिणः संवत्सर इति प्रतिष्ठाया इत्येतावद्ध संवत्सरस्य ब्राह्मणै यावन्मासो मासिमाःस्येव प्रतिष्ठन्तोयन्ते मेढस्त्वापलुदेन पदलोहिलग्रेवागे शल्मलनिवृध्या वर्णा ब्रह्मणा प्रक्षोमेधेन जग्रोधश्च पते निर्मलोगायत्रेण स्थावन्ते स्वावन्तु प्रियन्तानान्निधेनान्तानिधिवजगम् भवामहेव सोममा ्याद्भ्यस्पाः कोल्याद्भ्यस्पाः विकर्याभ्यस्पाः वट्याभ्यस्ताः कन्याभ्यस्ताः सज्याभ्यस्ताः सोद्याःभ्यस्ताः हरस्याभ्यस्ताः वैशन्ति भ्यस्ताः फल्मल्याभ्यस्ताः वर्ष्याः भ्यस्ताः वर्ष्याभ्यस्ताः श्रादुलेभ्यस्ताः पुष्पाभ्यस्ताः सन्दमानाभ्यः भस्माः स्थामरा भस्माः नादेगे भस्वाः सैन्धवे भस्वाः सुमुद्रिका भस्वाः सर्वा भस्वाः भ्यस्ताः वहन्ते भ्यस्ताः परिवहन्ते व्यस्ताः भवन्तम् वहन्ते भ्यस्ताः ग्रह महन्ते भ्यस्ताः भीमम् वहन्ते व्यस्ताः ग्रम् वहन्ते भस्ताः भीमम् महन्ते भ्यस्ताः भोः भ्यस्ताः भ्यस्ताः भ्यस्ताः स्मायोम् सदितमभ्यमेदि वरुणः अहम् च वृत्रहम्भोभ्यः शूलमपुंसते भद्रा इन्दराजयः अभिकर्त्रेन्द्रभोद्यते विंसेण्ट् यस्वाहाब्धाय स्वाहा हुताय स्वाहासन्न्यापिमन्त रूपायकरूपाया सा मज्ञनिष्ठानाभ्यङ्ग्रया सांसा महाविश्वारूपानिवेदस्मभ्यम् वयसा पिण्डमाना प्रजापतेन्द्रगोष्ठेः प्रजापतिर्मक्यमेता महाविश्वेः देवे प्रणभस्संविधानः शिला सती गोष्ठमागस्तासा वयम् व्रदजातम् तदेमृष्ट्वा हेहरम् दृष्पा हेहरमोर्वसेत् बृहद्वयः यज्ञस्मिदासेत्विदासेत् पूर्वनित्यश्वासेद्बृहद्वयः महात्मिराजेत्पिलञ्जिलाभिराजेत्पि कश्चिदेकागेशस्य जायते पुनः दिर्गस्यमस्थेडलम् यज्ञस्य रापमणम् वहदे सौर्यरे काकेशन्द्रमाजायते पुनः अग्निलहमस्थफेटम् भोगिरापगणम् वहत् पृच्छामि त्वापरमन्दम् पृथिव्या पृच्छामि त्वाभुवनस्य पृच्छामि त्वा विष्णो अश्वस्तरेण पृच्छामि वादः परमम् यो वाहुः परमन्तम् पृथिव्या यज्ञमानश्चनाभिम् सोमवाहुर्विष्णो अश्वस्तरेणो ब्रह्मैव वादः परमम् योम अमम्बे अम्बाल्यम्बिके न वालयति कश्चन सुभगेकाम् वेदवासिनसुवर्गे योगे सुन्वाधाम् आहमजानिकर्पथमात्मजानिकर्पथम् तौ सः जतनः पदस्सम्प्रधारयामहेतोभोजनोदाम्बिधावनः प्रयस्त्रीणामपेक्ष्यः लक्ष्मक्ष्मद्दिगतिम् परावधेत् अम्बे अम्बाल्यम्बिके न मायशदि कश्चन मे नामुच्छयदा वेणुभारङ्गिरामिव अथामध्यमे ध नागम् शीते वाते पुनन्निव अम्बेऽम्बाल्यम्बिके नमागफति कश्चन निर्धनेन पुष्णम् पशुमन्यते शूद्राय दर्यना राणपोषाय धनायति अम्बेऽम्बाल्यम्बिके नमागभज कश्चन अभी अभी अम्बे ्यम्बिके निताम् वृक्षस्य लोहे पिता गभे वृष्टिमदगुम्नाकारिषन्वस्य वाजिलः आपोहिष्ठामितानभूर्जेर्धाद महेर्णायदक्षते योश्यमतमोरस्तस्य भाजयदेहनः उजतेरिव मातरः तस्मानङ्गमामो यस्य कुरारजनिवथ आहो जगलः स्वाञ्जन्दगायत्वेन चन्दना रुद्रास्त्वाञ्जन्तभेन चन्दना दृत्यास्त्वाञ्जन्तयतेन चन्दनायद्वातो अपो अगमलिङ्गस्य येन गस्तो तदे पथा पुनरः समापत्प्रयाचिनः राज यशो भा न्नमध्यप्रजापते इञ्जन्तिर्बन्धमृषन्तरम् दम्परितस्थुः देलोचनादि पेशते मर्यापेश प्राणागस्वाः ज्ञानागस्वाः प्राणागस्वाः स्थाभ्यस्ताः सन्ताने भ्यस्ताः परिसन्तानेभ्यस्त्वाः पर्वभ्यस्ताः सन्तानेभ्यस्ताः शरीरेभ्यस्ताः विज्ञायस्वाः दक्षिणाभ्यस्ताः स्वर्गागस्ताः लोकागस्वाः सर्वस्मै स्वाहा य स्वाहा हरिताय स्वाहाभिहिताय स्वाहा नभिहिताय स्वाहा युक्ताय स्वाहायुक्ताय स्वाहाय स्वाहोद्युक्ताय स्वाहा विमुक्ताय स्वाहा प्रमुक्ताय स्वाहा वञ्चते स्वाहा परिवञ्चदे स्वाहा धं वञ्चदे स्वाहानुवञ्चदे स्वाहोद्वञ्चदे स्वाहायते स्वाहा धाव स्वाहा तिष्ठते स्वाहा धर्मस्मै स्वाहा ओ